तोणत्यारावद् दशकम् विभूतियोगम् त्वम् हि ब्रह्मैव साक्षात् परमुरुमहिमन् अक्षराणामकार तारो मन्त्रेषु राज्ञा मनुरसि मुनिषो त्वम् भृगुर्नारदोऽपि प्रग्लादो दानवाना पशुषु च वैनतेयो नागानामस्यनन्त सुरसरिदपि च श्रोतसाम् विश्वमूर्ते ब्रह्मण्यानाम् बलिस्त्वम् क्रतुषु च जप यज्ञोऽसि वीरेक्षुपार्थो भक्तानामुद्भवस्त्वम् बलमसि बलिनाम् धामतेजस्विनाम् त्वम् नास्त्यन्तस्त्वविभूते विकसतदिशयम् वस्तु सर्वम् त्वमेव त्वम् जीवस्त्वम् प्रदानम् यदिह भवञ्चित् प्रपञ्चे धर्मम् वर्णाश्रमाणा श्रुतिपदविहितम् त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विगसति चनके सन्ध्यजन्तो लभन्ते सत्ता स्फूर्ति प्रियत्वात्मम् अखिलपदार्थेषु भिन्नेष्व निर्मूलं विश्वमूलं, विश्वमूलम् परममहमिति विशुद्धं, विभोतम् विशुद्धम् कर्मापि ते स्त्रियतमिह भव प्रापकम् तत्र तावन् निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेति कार सक्तानाम् कर्मयोगस्त्वयि विनिहितो येतुनाद्यन्तसक्ता नाप्यद्यन्तम् विरक्ता त्वयि च दृशता भक्तियोगोग्यमीषाम् ज्ञानम् त्वद् वक्तताम् वा लघुसुतवचान् मर्त्यलोके लभन्ते तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको भा आविष्टम् तु दैवान् भवजलनिधि पोतायिते मर्त्यदेहे त्वम् कृद्मा कर्णदारम् गुरुमनुगुण वातायितस्तारयेताम् अव्यक्तम् मार्गयन्त श्रुतिविरविनयै केवलज्ञानलुब्धा क्लश्यन्ते दीवसिद्धिम् बहुतरजनुषा मन्त एवाप्नुवन्ती दूरस्थः कर्मयोगोऽपि च परमफले नन्वयम् भक्तियोग त्वामूलादेव प्रापको वर्धताम् मे ज्ञानायैवातियत्नम् ब्रह्मतत्वं तु शृण्वन् गाठम् त्वत्पादभक्तिम् चरणमयति यस्तस्य मुक्तिकराघ्रे त्वद्यानेऽपीहतुल्या पुन असुकरत चित्तचाञ्चल्यहेतो अरभ्या सातासु शक्यम् तदभिवचयितुम् त्वत्कृपाचारुताभ्याम् निर्विण्णः कर्ममार्गे खलु विषमतमे त्वद्गदाधौ च घाटम् जातः अयि भुवनपते नैव शक्नोमि हातुम् तद्भूयो निश्चयेन त्वयि निहितमन दोषबुद्ध्याभजंस्तान् पोष्णीयाम् भक्तिमेव त्वयि हृदयगते मङ्क्षुनङ्क्ष्यन्ति सङ्घाम् कच्चित् क्लेशार्जितार्थ क्षयविमलमतेर्नुद्यमानो जनौघञ् प्रागेवम् प्राहविप्रो न खलु मम जन कालकर्मग्रहा चेतो मे दुःखहेतो तदिह गुणगणम् भावयत्सर्वकारीति उग्ध्वा शान्तो गतस्त्वाम् मम च कुरुविभो दातृशीम् चित्तशान्तिम् जलप्रागुर्वशीम् प्रत्यतिविवचमना सेवमानश्चिरम् ताम् गाठम् निर्विद्य भूयो गायन् त्वम् प्राप्य पूर्ण सुखतरमचर तद्वदूद्यूयसङ्घम् भक्तो तम् सम् क्रियामा पवनपुरपते हन्त मेरुन्तिरोभान् कृष्णा कृष्णा मुकुन्ता जनार्दनः कृष्णा गोविन्दनारायणा हरे अच्युदानन्त गोविन्तमातवा सच्चिदायण हरे